नमो नमः नमो नमः भगिनी नमो नमः नमो नमः नमो नमः नमो नमः रमा नमो नमः वीणा भगिनी नमो नमः सर्वेषां अस्माकं वर्गे आरम्भं कुर्मः विणा भगिनी प्रार्थनया आरम्भं कुर्मः प्रार्थनां वदति वा अस्तु भगिनि अन्य किञ्चित् अद्य अन्यत् वा अस्तु अस्तु न न वदामि भगिनि किञ्चित् अन्यश्लोकानि वदामि ओहो हो निश्चयेन कृपया वदतु भगिनी वदतु वदतु कृपया हरिः ओम् श्रीगुरुभ्यो नमः श्रीकृष्णाय नमः नारायणम् सुरगुरुम् जगदेकनाथम् भक्तप्रियं सकललोकनमस्कृतम् च त्रैगुण्यवर्जितमजम् द्विभुमद्यमीशम् वन्दे भवघ्नम् अमरासुरसिद्धवन्द्यम् नारायणम् नमस्कृत्य नरम् चैव नरोत्तमम् देवीम् सरस्वतीम् ततो जयमुदीरयेत् वसुदेवसुतम् देवम् कंसचाणूरमर्दनम् देवकी परमानन्दम् कृष्णम् वन्दे जगद्गुरुम् मनोजवम् मारुतदुल्तुल्यवेगम् जितेन्द्रियम् बुद्धिमताम् वरिष्ठम् वातात्मजम् वानरयूथमुख्यम् श्रीरामदूतम् शिरसा नमामि हरि ओम् श्रीकृष्णाय धन्यवादः भगिनि अतीव मधुरं भगिनी अतीव मधुरम् उत्तमं तदेव अहं वदामि अस्माकं वर्गस्य विशेषता वीणा भगिनी आरम्भ आरम्भे प्रार्थना अम्बिकापतिमहोदय अन्तिमशान्तिमन्त्रं जयन्तिभगिनी गीताश्लोकान् यदि तस्य गीताश्लोकान् आधृत्य किमपि वक्त वद् वदनीयमस्ति तत् जयन्ति भगिनी सर्वं विशेषतया सर्वे पठनं कुर्वन्ति अस्माकं वर्गे आनन्दस्य विषये सन्तोषस्य विषय उत्तमम् उत्तमं धन्यवादः पुनः एकवारम् अस्तु नमस्ते नमस्ते जयन्ति भगिनी श्यामला भगिनी नमो नमः नमो नमः भारतमूले नमो नमः अस्तु अधुना अस्माकं नूतनः विषयः गतसप्ताहे वयम् उपसर्गविषयकः अध्ययनं समापितवन्तः अधुना नूतनः विषयः अतीवमहत्त्वपूर्णः इति विषयः अस्ति तदस्ति द्वितीया विभक्ति इत्युक्ते तत्र द्वितीया विभक्ति कुत्र कुत्र भवति तत् पश्यामः तत्र पाठस्य शीर्षकम् अत्र दीयते योगक्षेमं वहाम्यहम् इति शीर्षकमस्ति तत् कथं तस्य योगक्षेमं वहाम्यहम् इत्युक्ते तत्र कथं तस्य द्वितीया विभक्ति प्रयुञ्जते तस्य अपि अध्ययनं वयं कुर्मः मूलतः कर्मपदं हा किञ्चित् व्याकरण अंशान् अपि वयं पश्यामः पश्यन्तु एकः तत्र रामः रामः इति कश्चन पुरुषः वाक्यं वदामि रामः ओदनं पचति अत्र वाक्यमस्ति रामः ओदनं पचति अधुना रामः ओदनं पचति अत्र कर्ताकः अधुना हा रमाभगिनी भवती वदति वा रामः ओदनं पचति तत्र कर्ताकः कर्तुपदं किम् रामः रामः राम इति कर्ता सः पाचनक्रियां करोति रामः इति कश्चन पुरुषः कर्त कर्तृरूपेण पाचनक्रियां करोति अधुना तस्य पाचनक्रियायाः फलं किमस्ति भगिनी पाचनक्रिया तस्य फलं किं किं निष्पद्यते वाक्य वाक् पश्यन्तु रामः ओदनं पचति पाचनक्रियायाः फलं किमस्ति किं प्राप्नोति एवं खलु रमा भगिनी सः पाचनं करोति किमर्थं करोति सः ओदनस्य प्राप्तिम् इच्छति अतः पाचनं करोति तत्र निरर्थ निरर्थकता तत्र नास्ति निरर्थकता एवं सर्वं स्वीकृत्य को मनुष्यः कार्यं न करोति एव फलापेक्षया एव सर्वं कार्यं प्रवर्तते एवं खलु अधुना कर्म एतस्मिन् वाक्ये रामः ओदनं पचति राम इति कर्ता पचति इति क्रिया ओदनः इति कर्मपदम् फलम् इत्युक्ते कर्मपदम् अत्र अधुना अत्र सूत्रम् आगच्छति किञ्चित् व्याकरण अंशान् अपि वदामि कर्तुरीस्थिततमं कर्म कर्म इत्युक्ते किम् कर्तुरीतम कर्ता कर्ता क्रियया क्रिया युद्ध तत्ति कर्म अस्त कि हाँ वद वजती भगिनी अस्त भानी अदुना इप्सिततमम् इत्युक्ते किम् इप्स्थित इच्छा इष्टतमं प्राप्तुमिच्छति अस्तु अहं पचनक्रियां करोमि तत् पाचनक्रियया अहम् ओदनम् ओदनस्य सिद्धतां भवेत् इति विचिन्त्य एव सः पाचनक्रियां करोति तस्य इप्सितमकारकः अस्ति कर्म ओदनः इति अधुना तत्र ओदनः इति ओदनः इति प्रथमा एकवचनम् ओदनमिति द्वितीया एकवचनम् किमर्थं तद् द्वितीया आगच्छति अत्र द्वितीयं सूत्रमस्ति कर्मणि द्वितीया इत्युक्ते यत् किमपि कर्मपदं तस्य द्वितीया विभक्ति भवति एषः अस्माकम् अस्य दिनस्य विषयः एक सर्वे एकवारं म्यूट कुर्वन्तु सर्वे म्यूट् कुर्वन्तु एकवारं अधुना पश्यन्तु किमुक्तं मया कर्तुरीप्सिततमं कर्म कर्तुः क्रियया यत्किमपि आप्तुम् इच्छति यत् इष्टतमम् अस्ति तस्य कर्मसंज्ञा पचनक्रियायाः उद्देशः पचनक्रियायाः सन्दर्भेण रामः ओदनं पचति इति वाक्ये ओदनः इति कर्मपदम् तस्य द्वितीया विभक्ति ओदनम् इति कर्तु सः अधुना इष्टतमम् इत्युक्ते किम् सः क्रियाया क्रियया एकनिमिषम् क्रियया प्रकर्षेण यत् किमपि प्राप्तुम् इच्छति तस्य कर्म इति संज्ञा द्वितीयं सूत्रमस्ति कर्मणि द्वितीया यस्य कस्य अपि कर्म इति संज्ञा यस्य कस्य पदस्य कर्म इति संज्ञा तस्य द्वितीया भवति इत्युक्ते अधुना अहं रामः ग्रन्थविषयकं वक्तुम् इच्छामि अधुना अग्रे भारतमहोदयः वदति वा भारतमहोदय ग्रन्थविषयकः मम मम वाक्यमस्ति तत्र रामः पठति तद् तत ग्रन्थ तत् वाक्यरचनां करोतु रामः पठ रामः ग्रन्थं पत उत्तमं पठ उत्तमं ग्रन्थमिति द्वितीया हा पठनक्रियायाः उद्देशं किमस्ति ग्रन्थ ग्रन्थस्य पाठनं भवेत् तत्र साधना भवेत् वा अभ्यास किमपि सः इच्छति अतः पाठनक्रिया ग्रन्थस्य उपरि सह करोति ग्रन्थ, ग्रन्थ इति कर्मपदम् तस्य द्वितीया रामः ग्रन्थं पठति इष्टतमम् इत्युक्ते दि मोस्ट् डिसैर्ड् वन् क्रियया यत् प्राप्तुमिच्छति यत् प्राप्तुमिच्छति द मोस्ट् डिसैर्ड् वन् तत् अस्ति कर्मपदम् इति हा अस्तु उत्तमम् अस्ति अधुना वयम् अस्माकं पुस्तकं प्रति गच्छामः अत्र पुस्तके योगक्षेमं महाम्यहं द्वितीया विभक्ति इति शीर्षके सति पश्यामः प्रथमता तु श्लोक हा जयन्ती भगिनी भवती श्लोकं वदति वा कुत्र आगच्छति योगक्षेमं वा म्यहं गीतायां श्लोकं वदति वा कृपया बेनि हा वद यदा यदा हि धर्मस्य श्लानिर्भवति भारत अभ्युप्तानां अधर्मस्य श्लानिर्भवति भारत तस्य अध्याये भवति बेनि चतुर्थध्याय इति मन्ये परित्राणाय साधूनां विनाशाय दुष्कृतं धर्मसंस्थापनार्थाय तत्तु सत्यं परन्तु योगक्षेमं वहाम्यहं योगक्षेमं वहाम्यहं कुत्र आगच्छति चिन्तयतु यान् श्लोकान् उक्तवन्तौ तत्तु सम् उक्तवत्यौ तत्तु योग्यं परन्तु योगक्षेमं वहाम्यहमिति पद अनन्याश्चिन्तयन्तु अनन्याश्चिन्तयन्तु उपासते तेषां सततयुक्तानां योगक्षेमं वहाम्यहम् सत्यम् उत्तमेन तेषां विद्याभियुक्तानां परि उपासते अधुना पश्यन्तु तत् कर्मपदस्य विषये यत् मया उक्तं कुत्र कुत्र भवति रामः ओदनं पचति अधुना गमनक्रिया अस्ति हा रामः इति कश्चन पुरुषः सः कुत्रापि गच्छति तत् रामः ग्रामं गच्छति इत्युक्ते गमनक्रियायाः इष्टतमं किमस्ति ग्रामम् अतः तत्र द्वितीया तथैव अधुना भजनं हा रामः शिवं भजति अत्र शब्दस्य अपि द्वितीया विभक्ति किमर्थं वयं सर्वे जानीमः खलु विष्णोः हृदये शिवः शीवा, शिवस्य हृदये शिवस्य हृदि विष्णुः इति तथैव हा रामः शिवं भजति सो शिव इति रामस्य इष्टतमरूपेण प्रयुज्यते अतः तस्य दिव्या विभक्ति तथैव वयं सर्वे जानीमः रामः फलम खादति यत्र फलं खादति तदपि तत्र कर्मपदमेव अधुना एतत् सर्वं वयं जानीमः अधुना मम एकः प्रश्नः अस्ति भव भवन्तः सर्वे चिन्तनं करोतु कुत्रचित् वाक्येषु कर्मपदं नास्ति चेत् किं भवति अधुना अहं हसति विषये वद वक्तुमिच्छामि हसति अनन्तरं शेते शयनं करोति तत् अनन्तरं वर्धते एतेषां विषये यदा अहं वक्तुम् इच्छामि हसति तत् पश्यन्तु हसति इत्युक्ते बालिका हसति अत्र कर्मपदस्य का स्थिति अकर्मकिनी भावप्रियो अकर्मकक्रिया सत्यं बहु अत्र कर्म, कर कर्म नास्ति तदा किं किमस्ति कर्ता पश्यतु तत्र किम् अभवत् कर्म कर्ता कर्तुपदस्य इप्सितमं कर्म अस्ति परन्तु अत्र कर्म नासीत् इत्युक्ते कर्ता स्वयम् एव क्रियायाः फलं प्राप्नोति क्रियायाः फलं कर्तारं प्रति गच्छति यदा वयं हसामः तदा मनसि सन्तोषः आनन्दभावना तत्तु वयं सर्वे जानीमः सैण्टिफिकलि आफ् गुड् हार्मोन्स् इति भवती तस्य फलं वयम् एव प्राप्नुमः हा अनदा अधुना तत् शयनं बालकः शेते हा शिङ्ग् धातु तत्र बालकः शेते शयनं करोति निद्रायाः अपि फलमस्ति आरोग्यवर्धनं भवति हा, हा। बालः वर्धते ग्रोथ इति तत् स्वयम् एव तस्य फलं प्राप्नोति इत्युक्ते अकर्मक धातूनाम् कृते कर्मपदम् भिन्नप्रकारेण न प्रयुञ्जते किमर्थम् तत्र कर्ता स्वयं एव क्रियायाः फलम् प्राप्नोति कर्ता एव न कोऽपि अन्यपदार्थः कर्ता एव क्रियायाः फलम् अतः अकर्मक अस्तु कर्ता स्वस्मिन् एव फलम् पश्यति तत् धातवः। अस्तु अधुना श्लोकस्य विषये किञ्चित् वदामः एकनिमेषम् अत्र अस्ति अहं मन्ये तत्र योगक्षेमं वहा वयं चिन्तयन्तु तत्र नास्ति स्क्रीन् दृश्यते वा मम स्क्रीन् दृश्यते एकनिमि एकनिमिषम् एकनिमिषं तिष्ठतु किञ्चित् अधुना दृश्यते न दृश्यते दृश्यते न दृश्यते अद्य दृश्यते दृश्यते अस्तु अस्तु अधुना अम्बिकापठिमहोदय कृपया पठति वा श्लोकं पठति वा अनस्या अनस्या चिन्तस्य अनस्य अनस्या मां ये जनाः पर्युपासते तेषां नित्य नित्यावियुक्तानां योगक्षेमं वहाम्यहम् अत्र <laughs> प्रथमं प्रथमः शब्दः तत् पुनः एकवारं वदति वा कृपया अनन् अनन्याः अस् अस्ति, <laughs> अस्ति, अस्ति अन्तयन्तु माम् ये जनाः पर्यु पर्युपासते पर्युपासते अनन्याश्चिन्तयन्तु अनन्याश्च चिन्तयन्तु मां ये जनाः पर्युपासते अत्र किमस्ति अनन्या अन् अन्य न अन्य न अन्य इत्युक्ते अनन्य न विद्यते अन्यः येषां ते न अन्य न अन्य इत्युक्ते किम् श्रीकृष्णभगवान् श्रीकृष्णात् परम् अन्य कोऽपि न कृष्ण एव भगवतः विषयकः एव चिन्तयन् चिन्तयन्तः माम् न अन्य माम् अत्र माम् पश्यन्तु मा इति किमस्ति द्वितीया विभक्ति अस्ति माम् इति कर्मपदमस्ति माम् एव जनाः पर्यु परि उपासते इत्युक्ते न विद्यते अन्यह येषाम् ते न अन्य भगवतः एव चिन्तनम् अन्यविषयस्य चिन्तनम् एव ते न कुर्वन्ति ये एतादृशजनाः पर्युपासते इत्युक्ते उपासना आसते परि उपासते आस उपासनां करोति न अन्य माम विहाय न अन्य माम द्वितीया तेषाम् किम् भगवतः वचनमस्ति तेषाम् नित्याभियुक् नित्यम् अभियुक्तानां युक्त इत्युक्ते किम् युजधातु योगविषयक वयं जानीमः युक्त इत्युक्ते अटेच् सर्वदा संलग्नः नित्यम् अभियुक्तानाम् कृष्णात् परम् अन्यः न इति येषां चिन्तनम् ये अपृथक भूत्वा अपृथक् विलगीकरणमेव नास्ति भगवत साध्य तस्वयकचि नपृथ्भूता अस्मशीला है ना तत्ते जाते भगवान्दर् तत्स्मशीला अषयक चिंतन त योगक्षेमं वहामि अहं योग योगः तथैव क्षेमम् अहं वहामि अत्र पश्यतु वहाम्यहं वहामि अहं वहामि इत्युक्ते क्यारि अहम् एव क्यारि किं योगक्षेमम् अत्र योगक्षेमम् अपि द्वितीया अस्ति भगवान् स्वयं तेषां योगक्षेमम् वहति अधुना योगक्षेमम् इत्युक्ते किम् योगः क्षेमम् तत्र मिलित्वा शब्दः योगक्षेमम् इत्युक्ते योगः इत्युक्ते किम् तदस्ति लाभः अप्राप्तस्य लाभम् इति योगः क्षेममित्युक्ते किम् यत्किमपि प्राप्तं तस्य परिपालनम् तस्य जतनं तस्य वर्धनम् तस्य रक्षणम् अप्राप्तस्य प्रापणम् प्राप्ति तस्य योगः यत्किमपि प्राप्तम् तस्य लक्षणम् प्राप्तस्य परिरक्षणम् इति क्षेमः योगक्षेम अधुना पश्यन्तु एकम् उदाहरणं ददामि तत्र अधुना लाक्डौन् अनन्तरं तत्र देशविधानसमयानन्तरं तत्र वयं सर्वे आन्लैन् क्लासेस् फेसिलिटि विषये वयं सर्वे तस्य अस्माकं लाभः अस्ति तत् योगः अस्ति परन्तु यत् प्राप्तं तस्य रक्षणं तस्य क्षेमं कथं करणीयम् याया या कक्षा इत्युक्ते कक्षाणाम् त्यजनं न भवेत् वयमपि स्वाध्यायरूपेण अभ्यासं कुर्मः वयमपि संस्कृतभाषायाः जतनं संवर्धनम् इति विचिन्त्य साधनां कुर्मः तदा तस्य क्षेमः भवति योगः क्षेमम् एतत् सर्वम् ये अनन्यरूपेण कृष्णात् परम् अन्यः न इति विचिन्त्य मां तेषाम् अहं योगक्षेमम् द्वितीया कर्म वहामि इति विषय अस्तु स्पष्टमस्ति सर्वेषाम् स्पष्टमस्ति वा अधुना अधुना गच्छामः पुस्तकं प्रति पुस्तके किमस्ति पश्यामः अस्माकं गीतासोपानम् तत्र पञ्चविंशति पाठः क्रमाङ्कः अस्ति अद्यदिनस्य विषयः <laughs> योगक्षेमं वाम्यहम् अस्तु शमलाभगिनी भवती पठति वा योगक्षेमं पठतु अवदेयम् यस्मिन् अङ्ग्रे ग्रहणं ताडनम् स्क्रीन् दृश्यते वा स्क्रीन् दृश्यते भगिनि भगिनि योः क्षेमं महाम्यहम् द्वितीय कृष्णः अस्ति भीष्मः कृष्णः पाञ्चजन्यः अस्ति सेनावंशी कृष्णः पाञ्चजन्यं धमति भीष्मः भीष्मः सदा नयति सेनां नयति भीष्मः सेनां नयति कृष्णः वंशी वादयति वंशीं वादयति एकैकनिमिषः वा अत्र किमस्ति पश्यन्तु कृष्णः अस्ति भीष्मः अस्ति कृष्णः अस्ति पाञ्चजन्यः अस्ति पाञ्चजन्य इत्युक्ते पञ्चजन्यो ऋषिकेषु तत् शङ्खस्य नामकरणं हा पाञ्चजन्यः अस्ति सेना अस्ति वंशी इत्युक्ते तत्र हस्ते पश्यन्तु फ्लुट् इति वंशी अस्ति अधुना द्वितीयाविभक्त्यन्तं पदं प्रयुञ्ज वाक्यरचना कृष्णः पाञ्चजन्यं धमति धमति इत्युक्ते तु ब्लो हा पाञ्चजन्यं धमति भीष्मः सेनां नयति तत्र सेनाशब्दस्य किं रूपं वाक्ये द्वितीयान्तरूपं सेनां नयति इति भीष्मः सेनापुतिसेनापतिरूपेण तत्र युद्धं कृतवान् आसीत् अतः सेनां नयति सेनां नयति कृष्णः ंशीम् वादयति कर्मरूपेण द्वितीया विभक्ति किं वादयति वंशीं वादयति अस्तु अधुना अग्रे पठतु सारथिः सारथिः रथम् रथं चालयति सज्जनः गुणम् पश्यति योगी इन्द्रियानिग्रहम् करोति क्रोधः समूहं जनयति hmm. एकल् एकलव्यः गुरो मूर्तिम् अर्चति बुद्धिमान् hmm. क्रोधं त्यजति गोपिकाः अक अकुरम् इच्छन्ति कृष्णः भक्तिम् इच्छति भक्तः देवं नमति अत्र गीता पत अर्मपदा का प्रथम वाक्य रखम द्वितक्ये गुण इंद्रिग्रहोहम मूर्ति क्रोधम अक्रूरम भक्ति दीता सर्वा कर्मपदा त का विभक्ति द्वितीया विभक्ति अस्तु उत्तममस्ति भगिनी धन्यवादः धन्य धन्यवादः दन्य। अधुना हा वीणा भगिनी भवती पठति वा एतानि रूपाणि उच्चैः पठत तथा अस्तु भगिनी एतानि रूपाणि उच्चैः पठत प्रथमविभक्तिः द्वितीया विभक्तिः एकवचनं द्विवचनं बहुवचनं बालकः एकवचनमस्ति बालकं बालकौ बालकान बालिका बालिकां बालिके बालिकाः लेखनी लेखनीं लेखन्यौ लेखनीः अत्र <laughs> पश्यन्तु <laughs> किमस्ति <laughs> बालक पुिंगीप तस्तीया विभक्ति कथम होतीक प्रथमा का बालक बालको बालकाया का बालककां बालका अ स्त्रीलिंगी पदम बालिका विणा भगिनी बालिका स्त्रीलिंग तरह प्रथम विभक्ति स्मरती व किमस्ट <laughs> बालिकाः तदस्ति बालिका बालिके बालिकाः इति अस्ति हा माला माले मालाः गीता गीते गीताः इति अस्तु अधुना तत्र पश्यन्तु तत्र साधर्म्यं दृश्यते बालिका बालिके बालिकाः प्रथमा बालिकां बालिके बालिकाः द्वितीया इत्युक्ते प्रथमा द्वितीया द्विवचनान्त बहुवचनान्तरूपाणि समान, समानानि एव खलु बालिके बालिका बालिका बालिकाः बालिकां बालिके बालिकाः हा, हा आकारान्त श्रीलिङ्गी अधुना अग्रिमे पठतु लेखनी लेखनी लेखनीं लेखन्यौ लेखनीः प्रथमा स्मरति वा नदीशब्दस्य ईकारान्तस्त्रीलिङ्ग प्रथमा का नदी नद्यौ नद्याः नदीनद्यौ नद्यः तथैव लेखनी लेखन्यौ लेखन्यः अत्र भेदः वर्तते हा अत्र भेदः अर्थे इत्युक्ते अस्माभिः किं स्मर्तव्यम् आकारान्तस्त्रीलिङ्गिशब्दानां कृते प्रथमा द्वितीया विभक्ति द्विवचनान्तबहुवचनान्तपदानि समानानि परन्तु ईकारान्तदीर्घ ईकारान्तशब्दानां कृते तत्र भेदः वर्तते यतो हि नदी इति उदाहरणं स्वीकुर्मः तस् नदीनद्यो नद्यः भवति नदीनद्यो नद्यः नदीं नद्यो नदीः इति भवति तत्र नदीः लेखनीः इति भवति परन्तु अत्र मालाः गीताः बालिकाः तत् समानः अस्तु इति भेदः अस्तु भगिनी अधुना अग्रे हा अधुना हा एकमेकं स्वीकृत्य अधुना प्रथमं स्वीकरोतु भगिनी वाक्यानि रचय छात्र कोष्टकाधारेण द्वितीयाविभक्ति प्रयुज्य वाक्यानि पूरयत छात्रः पाठं पठति पाठः वा छात्रः पाठं पठति वा योग्यमेव hmm. किमर्थं तत्र पाठः शब्द द्वितीया कथं भवति पाठं बालकः बालकं hmm. पाठं सत्यम् hmm. hmm. hmm. छात्रौ hmm. पाठौ पठन्ति कथं पश्यन्तु तत्र छात्रः इति कर्ता तस्य कोऽपि परिवर्तनं तस्मिन् कोऽपि परिवर्तनं नास्ति एकः एव छात्रः सः पाठं पठति अनन्तरं पाठद्वयम् इत्युक्ते पाठौ पठति पाठत्रयं पाठान् पठति तत्र मध्यभागे यद् दत्तमस्ति तत् किमस्ति कर्मपद तस्य द्वितीया विभक्ति यत् पदं तत्र वर्तते भागे तस्य द्वितीया विभक्तिः करणीया अधुना कर्म छात्रः पठति तत् पठति इति किं सूचयति पठति इति पदं स्वी सूचयति तत्र प्रथमपुरुष एकवचनान्त एव कर्ता छात्रः भवतु नाम छात्रा भवतु नाम महिला पुरुषः माता भवतु नाम तत्र माता पठति बालकः पठति छात्रः पठति अनन्तरं बालिका पठति सर्वं समानं भेदः कुत्र कर्म महोदय एकवचन द्विवचन बहुवचन अधुना अग्रिमे करोतु सम्पादकौ अपि करोतु किमस्ति तत्र सम्पादकौ पत्रिका प्रेषय सम्पादकौ पत्रिकाः प्रेषयतः अत्र कर्मपदमस्ति पत्रिका एतस्य द्वितीया विभक्ति पश्यन्तु पर अधुना परिवर्तनं कुत्र दृश्यते सम्पादकौ इति दृश्यते इत्युक्ते छात्रः एतस्य स्थानौ चिन्तयतु छात्रौ हा प्रथमाविभक्तिछात्रः देवः देवौ देवः छात्रः छात्रौ छात्रः यदा तत्र परिवर्तनं भवति तदा अस्माकं तालिकायां तत् वदति वदतः वदन्ति वदसि वदथः वदथ वदत्त, वदामि वदावः वदामः अत्र तदा यदा प्रथमपुरुषद्विवचनान्तरूपं सम्पादकौ इति अस्ति तदनुषंगे पिवर्तन क्रियापदे अवतीय संदक प्रति संदक संयु द्वचना अंपादक प्रेशयत कर्ता क्रियापद द्वो मध्ये कोपर्तनम न करीय कुत्र परिवर्तनं कर्मपद् पड़। कर्मपदे इत्युक्ते एका पत्रिका वा पत्रिकाद्वयं वा पत्रिका बहुवचनान्तं तत्र दिव्या विभक्ति कृत्वा पुनः एकवारं वाक्यानि वदति वा सम्पादकौ पत्रिकां प्रेषयतः बहु सम्यक् पत्रिकां प्रेषयत द्वितीयस्थले संसादकौ पत्रिके पत्रिके इत्युक्ते तालिकां पश्यतु बालिका एतस्य परिवर्तनं किम् अस्ति वा तत्र बालिकां पत्रिकां अत्रापि पत्रिकां वा परन्तु तत्र पत्रिका अस्ति खलु द्विवचनान्त अस्ति खलु तत्र परिवर्तनरूपे परिवर्तनं भवति, भवति आ, वार, वार वार वा न भवति तत् पत्रिके एव तिष्ठति एकवारम् एकवारं वयं लिखित्वा पश्यामः परिवर्तनं कुत्र भवति कुत्र न भवति चिन्तयतु आकारान्तस्त्रीलिङ्गि शब्द यथा पत्रिका बालिका तदा किमस्ति स्थिता अहं प्रथमा विभक्ति हा लिखामि ीताः इति खलु विभक्तिः किं भवति सीताम् सीताः प्रथमाविभक्ति द्विवचनान्तपदम् द्वितीया विभक्तिः द्विवचनान्तपदं समानं कोऽपि परिवर्तनं नास्ति ना, परिवर्तनं कुत्र अस्ति एकवचने सीता सीतां भवति सीते सीते एव भवति द्वितीया सीता सीता एव तिष्ठति अधुना इकारान्त नदी इकारान्तसे नदी नद्यो नद्यः इति किमस्ति प्रथमा नदी नद्यो नद्यो नद्यः अत्र किं परिवर्तनम् नदीम् नद्यो नदीम, नदीम् नद्यो नदीः तथैव पुस्तके अपि अस्ति खलु भगिनी लेखनी लेखन्यो लेखन्यः लेखनिम, लेखन्यो लेखनीः तत्र समानता परन्तु नद्यः नदी भवति अत्र सीताः सीताः तथैव सीते सीते तथैव नद्यो नद्यो तथैव परन्तु नदी नदीं भवति सीता सीतां भवति नद्यः नदीः भवति इति भिन्न रूपे यद्भिन्नता अस्ति ता, ता भिन्नता अस्माभिः तस्य ग्रहणं भवेत् अस्तु अधुना स्पष्टमस्ति भगिनी अधुना अत्र आगच्छतु अत्र सम्पादकौ सम्पादकौ इति सम्पादकौ प्रेक्षायते तत्र कोऽपि परिवर्तनं न परिवर्तनं कुत्र कर्मपदे पत्रिका पत्रिके पत्रिकाः यदा अस्ति चेत् अधुना पत्रिका पत्रिके पत्रिका प्रथमान्तपदानि अधुनानि तुणा, कुरु कर, करोतु वाक्यरचनां भवेत् वदतु अधुना सम्पादकौ सम्पादकौ पत्रिकाम् आं योग्यम् पत्रिकां प्रेषयतः अग्रिमे भागे पादकौ सम्पादकौ पत्रिके एव तथैव तिष्ठति पत्रिका तथैव अस्तु भगिनी पत्रिके प्रेषयतः प्रेषयतः अग्रिमे सम, सम, सम्पादकौ पत्रिकाः प्रेषयतः पत्रिकाः तथैव तिष्ठति यतोहि तत् आकारान्तश्रीलिङ्गिपदे प्रथमाविभक्ति द्वितीयाविभक्ति द्विवचने बहुवचने परिवर्तनम् अस्तु भगिनी स्पष्टता अस्ति खलु अस्ति अस्तु अस्तु धन्यवादः धन्यवादः अग्रिमे भारतमहोदय करोति वा घटी इति शब्दसे नदी भगिनी वयं घटिं क्रीणीमः घटीं क्रीणीमः उत्तमं नदी एव घटी नदी नद्यो नद्यः प्रथमा नदी नद्यो नदीः द्वितीया अतः वयं घटीं क्रीणीमः उत्तमम् अग्रिमे वयं कट्यौ क्रीणीमः घट्यौ नद्यौ प्रथमा द्वितीया समान् उत्तमम् अग्रिमे वयं कट्यः महा। तत्र घट्यः स्थाने किं भवति नदीनद्यौ नद्यः नदीं नद्यौ नदीः नदी नदी। इति द्वितीया अतः किं भवति घटीः घटी अत्र पश्यतु अत्र पश्यतु लेखनीं okay. लेखन्यो लेखनी लेखनीं लेखन्यो लेखनीः घटीं घट्यौ घटीः अस्तु घटीः अधुना एतत् करोतु नायिका जिग्रति नायिका पुष्पं जिग्रति नायिका पुष्पं न पुष्पे <trots> नायिका पुष्पाणि चिक्रति सत्यं योग्यं तत्र प्रथमा विभक्ति नपुषकलिङ्गे चिटिका प्रथमा विभक्ति द्वितीया विभक्ति कोऽपि परिवर्तनं नास्ति वनं वने वनानि वनं वने वनानि पुष्पं पुष्पे पुष्पाणि पुष्पं पुष्पे पुष्पाणि परिवर्तना मास्तु उत्तम धन्यवादाः धन्यवादः एतत् सर्वम् अधुना ए एतत् एकवारं कुर्मः जयन्तीभगिनी आरम्भं करोति वा आं बेनि वेणुं पर्यन्तं करोतु अनन्तरम् अन्यकोपि अस्तु बेनि यतो उदाहरणं रिक्तस्थानं पूरयत सौचिकः एकवचनं द्विवचनं बहुवचनं सौचिकः सौचिकं सौचिकौ सौचिकान् विषयः विषयं विषयौ विषयान् दण्डधीपः दण्डदीपं दण्डदीपौ दण्डधीपान् मुनिः मुनिं मुनी मुनीन् सेनापतिः सेनापतिं सेनापती हरि हरिं हरि हरीन् अतिथिः अतिथिम् अतिथिम् अतिथि अतिथीन् वेणुः वेणुम् वेणु वेणून् उत्तमम् अग्रिमे रमा भगिनी करोति वा शत्रुः शत्रुः शत्रून् शत्रून् शत्रून् शत्रून् कुं भवति पश्यन्तु तस्मात् प्राक् शत्रू इति अस्ति वेणु वेणु वेणून् शत्रून् चत्रून् चतॄन् इति अस्ति तथैव पशु hmm? पशु पशून् hmm? पशून् हा पुनः एकवारं वदतु त्रीणि रूपाणि पुनः एकवारं वदतु पशुं hmm? hmm? पशु पशून, पशु पशुं पशु पशू पशु मेयु अस्ति शत्रू अस्ति तथैव पशु पशु पशुं पशु पशून् हा पशून् योग्यम् असुः करोतु असुः असून् असून् असून् द्वितीया द्वि द्विवचनान्तपदं पुनः एकवारं वदति वा किम् उक्तवती न असू उपरि पश्यतु वेणु इति अस्ति शत्रू इति अस्ति पशु इति अस्ति असुः किं भवेत् असू इति भवेत् तत्र न नास्ति न कुत्र आगच्छति बहुवचने असुः इत्युक्ते किं भगिनी असुः इत्युक्ते किं प्राणोके लैफ् फोर्स् दट् ईस् अस्तु भगिनि धन्यवादः अस्तु भगिनि वायु अस्तु वायु वायु वायु सम्यक् अग्रिमे अपि पठति रं ज्ञातारौ ज्ञातॄन् तथैव अधुना करणीयं कर्ता कर्तारं कर्तारौ कर, कर्तॄन् तत्र तृदीर्घ अस्ति कर्तॄन् इति mm. कर्तॄन् अग्रिमे सस्तारं स्रष्ठन् स्रष्टृ स्रष्टॄन् स्रष्ट्रून् अस्तु अस्तु हर्ता हर्तारम् हर्तॄ अग्रिमे शाटिका शाटिका शाटिके शाटिकाः परिचारिकाम् अत्र पश्यतु अधुना आकारान्तशीलिङ्गे हा शाटिका शाटिका शाटिका शाटिके शाटिका शाटिका शाटिका अधुना करोतु परिचारिका एतस्य करोतु परिचारिकां परिचारिके परिचारिकाः विद्यां विद्ये विद्याः नदिः नीतिहि, नीतिः नीतिं नीतिः श्रुतिः स्मृतिः श्रु श्रुती श्रुतीः श्रुतीः अस्तु पर्याप्तं धन्यवादः एतत् सर्वमस्ति पश्यन्तु तत्र अकारान्तपुल्लिङ्गी अस्ति अनन्तरं इकारान्त इकारान्तपुल्लिङ्गी अस्ति मुनिः अनन्तरम् उकारान्त तत्र उकारान्तपुल्लिङ्गी वेणु शत्रु पशु असु तथैव वायु अनन्तरं रुकारान्तपुल्लिङ्गी ज्ञाता कर्ता अनन्तरम् आकारान्तस्त्रीलिङ्गी इकारान्तस्त्रीलिङ्गी नीति श्रुतिमती एवं सर्वमिकारान्तश्रीलिङ्गि अस्तु पर्याप्तम् अधुना वयं कथां प्रति गच्छामः <coughs> अस्तु अम्बिकापतिमहोदय भवान् कृपया आरम्भं करोति वा कथायाः इति <coughs> <coughs> पक्षिप्रियः इत्येव प्रसिद्धः आसीत् तस्य रा, राज्ञः विभिन्नकारणकारजातिवर्णानां hmm. पक्षीणां महासङ्ग्रहः आसीत् तस्य राज्ये hmm. एकदा तस्मै केनचित् द्वौ गरुडश्रावण श्रावकौ दत्तौ उभौ hmm. अपि मुष्टौ कुलीनौ च hmm. कीदृशे कीदृशौ गरुडौ राज्ञा अपि अदृष्टपूर्वौ अदृष्टपूर्व सत्ये व्यवस्था व्यवस्थार्थ कश्चन अनुभव अनुभवी जनः राज्ञाः निरुक्तः अत्र पश्यन्तु तत्र गरुडशावकौ गरुडशावकौ वा एकनिमिषम् स्क्रीन् दृश्यते तत्र गरुडशावकौ द्विवचनान्तपदानि इदृशौ गरुडौ तत्र डुवेल् फार्म् इति वद बद, वयं वदामः तत् उभौ पुष्टौ कुलिनौ आम् आम् शावकौ हा सर्वेषु शास्त्रेषु द्विविषान्तं तत्र राज्ञः तस्य प्रसिद्धिः अस्ति पक्षिप्रियः बर्ड् लवर् इति हा तत्र ते तस्य समीपे पक्षिणां महासङ्ग्रहः आसीत् अधुना तत्र द्वौ गरुडशावकौ एतस्य प्राप्ति तत्र गरुडशावकौ तत्र उभौ पुष्टौ कुलिनौ तत्र साधर्म्यमस्ति अदृशपूर्वौ हा तयोः व्यवस्थार्थं अनुभवी जनः राज्ञा नियुक्तः टु ट्रेन द बर्ड्स् इति कस्य मनुष्यस्य नियुक्ति राज्ञा कृतः अनुभवी जनः अनन्तरं किम् अभवत् पश्यामः अस्तु अग्रिमे तत् जयन्तीभगिनी पठति एकनिमिषं बेणि एकनिमिषं बेणि आम् राज्ञः तु तस्य आरभ्य खलु काञ्चित् खलु बेनि आमां केषाञ्चित् मासानां ततः आरभ्य पठतु केषाञ्चित् मासानाम, अनन्तरं गरुडौ द्रष्टव्यौ इति निश्चित्य राज, राजा तत्र गतवान् यत्रतौ यत्र तौ वर्धमानौ आस्ताम् उभौ अपि सुपुष्टौ आकर्षकौ च जातौ आस्ताम् तौ दृष्ट्वा राजा उक्तवान् अहम् एतयोह एतयोः उडयनं द्रष्टुम् इच्छामि तदर्थं तौ सङ्केतेन सूचय इति तत ततः तयो तयोः पालकः सङ्केतेन तौ ताडयितवान् द्वौ oh, अपि भगिनि फ्लै ाडनम् इत्युक्ते मारणम् ताडनम् इत्युक्ते बीटिङ्ग् डयते इत्युक्ते टु फ्लै ततः तयोः पालकः संकेतेन त्वौ धायितवान् द्वौ अपि ढयितवन्तौ किन्तु एकः hmm. आकाशे उन्नतम् स्थानम् प्राप्तवान् अपरः किञ्चित् धैत्वा पुनः आगत्य वृक्षशाखायाम् वृक्षशाखायाम् उपविष्टवान् गरुडयोः पालकः उक्तवान् एतस्य तु आरम्भतः एषा समस्या किञ्चित् ढयित्वा किञ्चित् ढयित्वा पुनः तस्याम् एव शाखायाम् उपविशति अयम् इति hmm. राजा राजा द्वयोः गरुडयोः दर्शनं डयितुं दर्शनं द्रष्टुम् इच्छति अतः hmm. तत्र गच्छति hmm. गरुडपालकः द्वयोः द्वौ द्वौ गरुडौ दायितवान् hmm. किन्तु एकः उन्नतम् उपरि उपरि गच्छति अन्न hmm. अन, अन् अनन् अन्यः किञ्चित् दूरं गत्वा पुनः आगच्छति आगत्य hmm. वृक्षस्य शाखायाम् उपविशति तथा गरुडपालकः वदति यतः एवमेव समस्याः किञ्चित् दूरं दयित्वा पुनः आगत्य तस्य शाखायाम् उपविशति अयम् इति उक्तवान् इत्युक्ते <laughs> तत्र द्वयोः द्वयोः गरुडयोः गरुडशावकयोः एकः एव शिक्षकः तत् ट्रैनी यत् तत् एकः एव शिक्षकः परन्तु तत्र भेदः तेषां दयने भेदः दृश्यते तत्र एकं किं करोति एकं तत्र पुनः किञ्चित् दयित्वा तथैव वृक्षशाखाया परन्तु एकः शतम् उन्नत उन्नतमुन्नतं गच्छति सम्यक् उपरि उपरि गच्छति धन्यवादः उत्तमम् भारत तद्भारतमहोदय पठति वा राज्ञः तु उभौ ततः आरभ्य आम भगिनि राज्ञः तु उभौ अपि प्रियौ द्वौ अपि समीचीनौ स्यात्या स्या इति सः इच्छति स्म सः अनुक्षणं घोषणां कृतवान् यः एतस्य गरुडस्य उडनं दयनं सम्यक् कारयिष्यति कारयिष्यति तस्मे सुमहत् पारितोषिकं दास्यते इति किम् अभवत् अत्र स्वशब्दैः वदति वा राज्ञः um, राज्ञः um, तु उपो अपि प्रियो um, अपि समीचीनो स्यात् स्यात्ताम् इति सः इच्छति स्म hmm. सः अनुक्षणं घोषणां hmm. कृतवान् घोषणां hmm. कृतवान् यः एतस्य गुरु गुरुडस्य hmm. दयनं सम्यक् का कारयिष्यति तस्मै सुमह पारिश्रोति ओके तस्य गरुडस्य दयनं करिष्यति तस्मै पारिश्रितो पारिशि पारितोषिक दास्यते इत्युक्ते तत्र किम् अभवत् गरुडद्वयं तत्र एकः अस्ति तत् सम्यक् उन्नत उन्नतम गपरी उपरी ग्यक्रीत डयनम कर सह सक डयनम कौचि उपरी गन आगत वृक्षशाखायां सह उपति सयन न किंचितिद्वाक शाखाया उपरी भेद पर द्वयोः कृते सम्यक् डयनम् भवेत। दयनस्य प्रदर्शनम् द्वयोः गरुडयोः उत्तमरीत्या एव भवेत् इति सः चिन्तितवान् अधुना सः राजा सः घोषणाम् कृतवान् यः यः कोऽपि मनुष्य गरुडस्य डयनम् सम्यक् कारयिष्यति तस्मै पारितोषिकम् ददामि सुमहत् महत् इत्युक्ते लार्ज् इति सु महत् सु इत्युक्ते यत्र यत्र सु इति उपसर्गः सौ उप सु इति उपसर्गेण किं सिद्ध्यते अधिकं तत्र इट् एन्हान्सस् द मीनिङ्ग् इत्युक्ते अधिकम् उत्तमम् इति हा तत् वचनं सुवचनं भाषितं सुभाषितं लाभः सुलाभः इति सु इति योजनां कृते धीरः सुधीरः मति सुमति सु, सु इति योजनेन तत्र अधिक् आधिक्यं दर्शति अधिकत्वेन मधुरं सुमधुरम् इति तथैव सुमहत् पारितोषिकं बिग् पारितोषिकम् इति सुमहत् पारितोषिकं सु दास्यते इति सः घोषणां कृतवान् एतावत्पर्यन्तं स्पष्टमस्ति खलु स्पष्टमस्ति सर्वेषा अस्तु अस्तु धन्यवादः महोदय धन्यवादः अग्रिमे श्यामला भगिनी पठति वा देशविदेशतः तथा आरभ्य अस् अस्तु भगिनी पठामि न दृश्यते न दृश्यते अधुना इदानीं दृश्यते भगिनि दे दे देशविदेशतः अनेके पक्षितज्ञ पक्षितज्ञाः विद्वा विद्वांसः च राज्ञः आह्वानेन तत्र आगतवन्तः बहुभिः प्रयत्नैः अपि दयि दा सह सः गरुडः पुनः आगत्य तस्याम् एव शाखायाम् उपविशति स्म सर्वैः अपि अनेकदा कृताः प्रयत्नाः विफलाः अभवन् राजा खिन्नः अभवत् वदति वा किं दत्तमस्ति देशविदेशतः बहूनि पक्षिः विद्वांसः च राज्ञः आगवानेन तत्र गतवन्तः बहूनि पक्षिताः विदेशतः भगिनि बहवः पक्षितज्ञाः बहवः मेनि मेनि एक्स्पर्ट् पर्सन्स् इति भावः अनेके इत्युक्ते बहवः पक्षितज्ञाः विद्वांसः च राज्ञः आह्वानेन तत्र सम्मिलिताः आगतवन्तः राज्ञः पश्यतु राजा घोषणां कृतवान् आसीत् अतः बहवः तज्ज्ञजनाः तत्र सम्मिलिताः इति अग्रिमे किमस्ति बहुभिः बहु प्रयत्नैः अपि दायितः च दायितः सः गरुडः पुनः आगत्य तस्याम् एव शाखायाम् उपविशति स्म बहुभिः पक्षिकः पक्षि पक्षिः प्रयत्नं करोति गरुडः पुनः आगत्य तस्याम् एव शाखायाम् उपविशति बहुनी प्रयत्नं करोति का, का, प पक्षिकः गरुडः पुनः पुनः आगत्य शाकायाम् उपरि उपविशति इत्युक्ते ये तज्ज्ञजनाः ये विद्वांसः तत्र सम्मिलिताः सर्वे प्रयत्नानि कृतवन्तः परन्तु तत्र साध्यं किमपि नासीत् तथैव वर्तनं सः गरुडः प्र प्रदर्शितवान् गरुडः एव प्रयत्नं करोति शाखायाम् उपरि उपविशति हा मत्लब् सि पश्यन्तु तथैव वर्तनं किञ्चित् डयनम् अनन्तरं पुनः तस्यां शाखायाम् एव आगमनं पुनः आगमनं हा किञ्चित् डयनं पुनः एकवारं तस्यां शाखायाम् एव उपविशति स्म हा mm -hmm. अग्रिमे अपि पश्यतु सर्वैः अपि अनेकधाः अनेकधा कृतः प्रयत्नः विफला अनेकधा इत्युक्ते एकदा द्विविधा त्रिविधा अनेकधा बहुवारं हानि मेनि टैम्स् अनेकधा इति बहुवारं ते प्रयत्नानि बहु बहु... प्रयत्नाः ते, ते कृतवन्तः प्रयत्नान् कृतवन्तः परन्तु सर्वे प्रयत्नाः विफलाः विफलाः तस्य किमपि न साध्यं तेन किम् अभवत् राजा मनसि तस्य मनसि खिन्नता खिन्नः अभवत् एतावत्पर्यन्तम् अस्तु योग्यमस्ति भगिनी धन्यवादः अधुना विना भगिनी अग्रिमे पठित्वा तस्मात् हा भगिनि <coughs> तस्मात् द्वौ अपि गरुडौ सम्यक् डयेते इति वार्ता प्राप्य राजा तद् अद्भुतं दृश्यं द्रष्टुं तत्र गतवान् अतस्मात् किमभवत् हा अतस्मात् द्वौ अपि गरुडोः सम्यक् डयते द्वौ अपि सम्यक् डयते इति वार्ता प्राप्य राजा एतं द्रष्टुम् तत्र गतवान् अधुना पश्यन्तु वार्ताम् अत्र किञ्चित् व्याकरणविषये पश्यामः हा इति वार्तां प्राप् अत्र वार्ताम् इत्युक्ते विभक्ति का भगिनी वार्तां विभक्ति भगिनि किं प्राप्य इत्युक्ते अत्र श्रीलिङ्गे अस्ति खलु तत् काम् प्राप्य वार्ताम् प्राप्य का वार्ता द्वौ अपि गरुडौ सम्यक् दयेते अत्र पश्यन्तु द्विवचनान्त अस्ति तत् किम् भवति ते इते अन्ते दयते डयेते भवति किमर्थम् द्वौ गरुडौ सम्यक् दयेते इति वार्ताम् राजा प्राप्तवान् तत् अद्भुतं दृश्यं द्रष्टुम् अत्र पश्यन्तु द्रष्टुम् इत्युक्ते प्रत्ययः कः आ... गन्तुं इत्युक्ते गन्तुं तुमन्तप्रत्ययः आ... तुमन्तप्रत्ययिनी तुमन्त तुमन्त तुमुन् प्रत्यय तुमुन् प्रत्ययः द्रष्टुं प्रष्टुम् अधुना द्रष्टुं तुमुन् प्रत्यये धातुः कः वदति वा तत्र तस्य लट्लकाररूपं किं भवति दृष् धातोः पश्यति इति पश्यति पश्यति हा पश्यति भगिनि हा दृष् धातोः कृते लट्लकार् पश्यति पश्यति लङ्लकार अपश्यत् लोट्लकार पश्यतु विधिलिङ्गलकार पश्येत् परन्तु तुमुन प्रत्यये वा तव तु प्रत्यये किं भवति द्रष्टुं दृष्टवान् पश्य इति आदेशः न भवति धतो कृते तत्र पश्य आदेशः नास्ति अतः तत्र द्रष्टुम् एव रूपम् अस्तु तत्र गतवान् हा अग्रिमं वाक्यं पठतु अपरस्य अपरस्य अपि गरुडस्य दूराकाशे उड्डयन् उड्डयन् उड्डयनम् उड्डयनम् उड्डयनम् दृष्ट्वा नितराम् आनन्दितः सः पृष्टवान् एतत् असाध्यम् कः साधितवान् Hmm. कश्चन कृषकः एतत् साधितवान् इति ज्ञात्वा राजा तम् श्वः राजप्रसादम् प्रति प्रेषयत इति आदिष्टवान् <coughs> अत्र किम् अभवत् पश्यन्तु अपरस्य अपि गरुडस्य दुराकाशे उड्डयनम् hmm? उड्डयनम् इत्युक्ते mm -hmm. द्वितीयः hmm. गरुडः शा सः अपि उड्डयनम् कृतवान, इति वार्ता हा सा वार्ता श्रुत्वा राज्ञः मनसि अपरः सन्तोषः हा अतः अधुना तत् अग्रिमे अस्ति दृष्ट्वा नितराम् आनन्दितः सः पृष्टवान् किं सः पृष्टवान् एतत् असाध्यं कः साधितम् कः साधितवान् पृष्टवान् कः एतत् एतत् कृतम् इति कश्चन कृशः एतत् साधितवान् इति ज्ञात्वा राजा राजा आदेशं ददाति तं श्वः राजप्रसादं प्रे प्रति प्रेषयत् इति आदिष्टवान् सः वदति श्वः श्वः राजस् राजस्य निकटे आगन्तुं निर्देशितवान् राजप्रास् प्रासादम् इत्युक्ते पेलेस् इति प्रासादन्तु अत्र प्रति प्रेषयत अत्र राजप्रासादम् अपि द्वितीयान्तपदं दृश्यते किमर्थं तत्र प्रेषत् इत्युक्ते तत्र गति अस्ति खलु गत्यार्थे द्वितीया गत्यर्थे द्वितीया अत्र राजप्रसादं प्रति उद्यानं प्रति गृहं प्रति शालां प्रति अनन्तरम् अन्यकोऽपि सभायाम् सभायां तस्य कृषकस्य सत्कारं कृत्वा राजा पृष्टवान् कथं साधितवान् भवान् इति कृषकस् कृषकः अग्रिमे दिने कृषकः आगत आगतवन्तः राजा तां पृष्टवन्तः कथं साधितवान् इति कथं साधितवान् एतत् सर्वं कथं साधितवान् भवान् द्वितीयः अपि गरुडशाव शावकः सम्यक् रीत्या डयनम् मया दृष्टम् कथं साधितवान् इति अधुना कृषकस्य उत्तरं किमस्ति पश्यामः धन्यवादः वीणा भगिनी रमा भगिनी धन्यवादः रमा भगिनी पठति अन्य कोऽपि शेषः अस्ति वा वर्गे नूतनतया कोऽपि नास्ति खलु हा असुदे अस्तु रमा भगिनी पठतु पठत। तदा तथा तथा कृषकः उक्तवान् अहं सामान्य कश्चन जनाः विद्वान् नास् नास्मि समस्या समस्याजनिका तु शाखा इति मया दर्शनमात्रेण एव अवगतम् सामर्थ्यं hmm. तु गरुडे आसीतेव शाखायाः hmm. मोह मोहः तं बाधते स्म अहं तां शाखां गति कर, कर्तितवान् ओ mm. अतः गरुडः पुनः तस्यां शाखायाम् उपवेष्टुम् अवस अवसरम् अप, अप्राप्नुवान् प्राप्नुवान् दयनम् आरब् आरब्धवान् इति mm. किमस्या तथा कृषकः उक्तवान् अहं mm -hmm. सामान्यं सामान्यमनुष्ये एव अहं mm -hmm. न विद्वान् न अस्मि अहं न विद्वान् mm -hmm. समस्याजनिका समस्याजनिका तु शाखा कारणं शाखा एव ए, ए माया दर्शनमात्रेण एव अवगतं मम मम चिन्तने शाखा एव मम कारणम् अवगतम् अतः अहं शाखां कर्तितवान् इति उक्तवान् सामर्थ्यं तु गरुडे आसीत् एव hmm, hmm. एतत् दृष्ट्वा गरुडे सामर्थ्यवान् भव भविष्यति शाखा hmm. नहि चेत् उपविश उपवेशनमपि नयि कर्तुं शक्नोति no, उपवेशनमपि न प्रयत्नमपि hmm. न करोति so, तदा अवसरमेव न प्राप्स्यति यदि शाखा नास्ति चेत् तत्र अवसरमेव न प्राप्यति अतः बाधते स्म पुनः पुनः उपविष्टति अति इति मोह भवति पुनः पुनः तस्य शाखायाः मोहः अन्य सामर्थ्यविषयक न्यूनता नास्ति सामर्थ्यविषयकः न्यूनता ना। न मोह मुहा, मोहात् एवं प्रगतिः न सम्भवति मोहात् इति अस्तु अस्तु धन्यवादः अधुना भवन्तः एकमेकं एकम, वदन्तु बहु सम्यक् अस्मि मोह मोह न करणीयम् इति पाठनम् अस्ति अस्तु भगिनि मम बहु शाखा बहु शाखा अस्ति साहरसङ्गमं मे साहरसङ्गम मे बहुशाखां वयं न उपविष्टुम् इच्छा न इच्छा देट् इस् नाट् टु सिट् लैक् देट् धन्यवादः like <laughs> <laughs> <laughs> प्रगतिमार्गे हा जयन्ति भगिनी कोऽपि वदति जयन्ती भगिनी मान्य जयन्ती भगिनी एव वदतु वदतु भगिनी कृपया सर्वेषाम् अन्ते सामर्थ्यम् अस्ति एव तस्य सूचनार्थम् ज्ञापनार्थं कोऽपि अवश्य कश्चन आवश्यकं भवति उत्तमः उत्तमः विचारः योग्यं योग्यमेव सामर्थ्यः तु सर्वेषु वर्तते सर्वे एव परन्तु प्रयत्न प्रयत्नशीला भवामः परन्तु तत्र कोऽपि मार्गदर्शकः वा गुरुरूपेण कोऽपि तस्य आवश्यकतां वर्तते इत्युक्ते आवश्यकता वर्तते तत्र आवश्यकता यदा कोऽपि सामर्थ्यवान् या कोऽपि प्रतिभावान् यत्र कोऽपि मार्गदर्शकः अस्माकं जीवने आगच्छति तदा प्रयत्नान् प्रयत्नानां कृते दिशादर्शकः पथदर्शकः इति भवति तदा एव सामर्थ्यस्य प्रगटीकरणं भवति नो चेत् सामर्थ्य तत्र सामर्थ्यस्य प्रगतिकर्ता प्रकटीकरणार् प्र, प्रगटीकर् करणार्थम् अपि अवसर एव नास्ति वयं स्वयम् एव न जानीमः ओ मयि सामर्थ्यम् अस्ति वा वयम् न जाने साशङ्क अवस्थायां वयं न जानीमः अस्ति वा नास्ति न ना, न ना, न भवेत् एव न करोमि एव इति एव चिन्तनं सत्यं योग्यं बहु धन्यवाद धन्यवाद वीणा भगिनी श्यामला भगिनी हा वदतु श्यामला भगिनी वदतु लोके किमपि वयं मोहं करोति तत् मोहं वयं वयं हास् टु वयं इन् अवर् लैफ़् इट् हेस् टु what to say whatever we uh, have uh, mo moha in any uh, work we do that uh, mm -hmm. uh, what to say have to be useful we should think mm -hmm. whether it is useful or not and then we have to have that moha knowledge hmm it took that the moha ha asma ka moha प्रगतेः कृते बाधकः भवति इति मोहात् किं भवति सम्मोह तेन किं भवति प्र वयं प्रगतिं न साधयितुम् शक्नुमः तद् बाधकः प्रयत्ने प्रयत्नमार्गे इति सत्यम् आवश्यकम् न आवश्यकमिति छिं... चिन् चिन्ति वयं मोहम् इति विचिन्त्य मोहत्यागम् करणीयम् आवश्यकतानुसारेण तस्य चिन्तनं भवेत् इति आवश्यकता अस्ति वा न वा नो चेत् तस्य त्यजनम् एव योग्यं सत्यं सत्यं धन्यवादः वीणा भगिनी वदति भारतमहोदय वदतु कृपया वीणा भगिनी, भगिनी, भगिनी? अस्ति चिन्ता मास्तु अन्य भारतमहोदय अम्बिकापतिमहोदय स्वशब्दैः वदतु प्रयत्नं करोतु सर्वे प्रयत्नं आवश्यकम् अद्य सुभाषणमस्ति सिंहः अस्ति सिंहः स्वयमेव अन्यप्राणीन् अद्य मुखेन गच्छति न न गच्छति इति प्रयत्नम् आवश्यकम् आम् न सुप्तस्य सिंहस्य कविशन्ति मृगाः इति योग्यं बहु बहु सम्यक् महोदय सुप्तस्य सिंहस्य मुखे स्वयम् एव न प्रविशन्ति प्रयत्नानि तत्र प्रयत्नस्य आवश्यकता योग्यं बहु सम्यक् बहु सम्यक् धन्यवादः धन्यवादः अधुना भारतमहोदय वदति प्रगति प्रगतेः कृते मोहः बाधकः सदा सर्वदा बाधकः अस्माकं चिन्तनम् एव तत्र भगवद्गीतायामपि अस्ति खलु तत् ध्यायन्तः विषयान् पजायते उपजायते एवं सर्वं यदा मोह मोहः एवं सर्वं मोहः जनयति तस्मात् कारणात् अस्माकम् अग्रे यत् जीवने तत् न भविष्यति मोहस्य त्यागम् एव करणीयं योग्यं तत्र विमोह त्यक्त्वा कर्मफला कर्मफलानां विमोह तक्त्वा एव सत्यं बहु सम्यक् उत्तममस्ति सर्वेषां विचारान् प्रकटीकरणं बहु भवन्तः कृतवन्तः अस्तु अस्तु वयं स्थगयामः अम्बिकापतिमहोदय कृपया शान्तिमन्त्रं वदति वा पूर्णमद पूर्णमिदं पूर्णा पूर्णमुदच्यते पूर्णस्य पूर्णमाधाय पूर्णमेव अवशिष्यते ओम् शान्तिशान्तिशान्तिः हरिः ओं तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः भगिनी पुनर्मिलामः पुनर्मिलामः एकनिमिषं तत्र